श्रीमद्भागवत् महापुराणं दसंस्कन्ध प्रथमोऽध्यायः तं जुगुप्सितकर्माणं शंशं निरपत्रपं वसुदेवो महाभाग उवाच परिशान्त्वयन् वसुदेव उवाच श्लाघनीयगुणशूरैर्भवान् भोजियस्कन् यशस्करः स कथं भगिनीं भन्या श्रियमुद्वाहपर्मणि मृत्युर्जन्मवतां वीरदेहेन सह जायते अद्यवाब्दसतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः देहे पञ्चत्वमापन्ने देहि कर्मानुगो वशः देहान्तरमनुप्राप्य प्राक्तनं वपुः व्रज्रन् तिष्ठन् पदैकेन यथैवैकेन गच्छति यथा तृणलोकैवं देहि कर्मगतिं गतः स्वप्ने यथा पश्यति देहमृदृशं मनोरथे नाभेनिवेष्टचेतनः दृष्टसुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किमपि शप यतो यतो धावति दैवचोदितं मनोविकारात्मकमापपञ्चसु गुणेषु माया रचितेषु देहसौ प्रपद्यमानसहतेन जायते ज्योतिर्यथैवोदकपार्थिवेश्वरः समीरवेगानुगतं विभाव्यते देवं स माया विमुह्यते तस्मान्न कस्यचिन् कस्यचिद्रोहमाचरे स तथाविध आत्मानक्षेममन्विच्छन्दोग्धुर्वै परतो भयं एषा तवानुजा बाला कृपणा पुत्रकोपमां हन्तुं नार्हसि कल्याणीम् इमां तं दीनवत्सलः शेषोकुवाच एवं स सामभिर्भेदये बोध्यमानोऽपि दारुणः न न वर्ततकौरव्यपुरसादाननुव्रतः निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यनकुदुन्दुभि प्राप्तं कालं पृथिव्योढुम् इदं तन्त्राण्वपद्यत मृत्युर्बुद्धिमतापोषो यावद्बुद्धिबलोदयं यद्यसौ न निवर्तेत नापराधोऽसि देहिनः प्रदाय मृत्यमे पुत्रान्मोचयेकपिलामिमां सुता मे यदि जायेरन्मृत्युर्वान् म्रियेत्येत् विपर्ययो वा किं न स्याद्गतिर्धातु उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् अग्निर्यथादारवियोगयोगयो अदिष्टतोऽन्यनिमित्तमस्ति एवं हिजन्तोरपि दुर्विभाव्य शरीरसं योगवियोगहेतु एवं विमश्रितं पापं यावदात्मनिदर्शनं पूजयामास वै सौरिर्बहुमानपुरसरं प्रसन्नवदनां भोजोऽनुशंसं निरपत्रपम् मनसा दूयामालेन विहसन्निदमब्रवीत् वसते उवाच वाच शस्यास्ते भयं सौम्य यद्वागाः शरीरिरे पुत्रां समर्पयिष्ये स्यां यतस्ते भयमुत्थितं शेषोकुवाच स्वसुरन्वधान्येव वृते वसुदेवोऽपितं प्रीतप्रसस्य प्रसस्य अथ अथकाल उपावृत्ते देवकी सर्वदेवतां पुत्रान् प्रश्शुवे चाष्टौ कल्यां चैवानुवसरं कीर्तिमन्तं प्रथमजं कंसा जानकदुन्दुभि अर्पयामासुत्थेन शोनितादन्ति विफुलः किं दुःसहं न साधूनां विदुषां किमपेक्षितं किं कार्यं कर्याणां दुरस्थितं किं सितात्मनां दृष्ट्वा समत्वं तच्छौरे सत्ये चैव व्यवस्थितिं कंसस्तुष्टमनाराजन् प्रहसन्निदमब्रवीत् प्रतिया तु कुमारोऽयं न शस्मादस्ति मे अष्टमाद्युवयोर्गर्भान् मृत्युर्मे विहितः किल तथेऽपि सुतमादाय यया वा नदुन्दुभि नाभ्यनन्दद तद्वाक्यम् विष्णयो वसुदेवाद्या देवक्याद्यायतु सर्वै वैं देवता प्राया उभयोरपि भारत ज्ञातयो बन्धुसुहृदो ये च कंसमनोव्रताः एतत्कंसाय भगवात्स संसाभ्ये च नारदः भूमेर्भाराजमाणानां दैत्यानां च वदोद्यमम् ऋषेर्विनिगमे कंसो यदुन्मद्वासुरानि ते देवक्यागर्भसम्भूतं विष्णुं च स्ववधं प्रति देव किं वसुदेवं च निगृह्य निगडैर्गृहे जातं जातमहन्पत्रं तयोरजनसङ्खयां मातरं पितरं भ्रातृन् सर्वांश्च सुहृदस्तथां क्रन्थीयश्रुचिपौ लुब्धा राजान प्रायशो भुवि आत्मानमिह सञ्जातं जानन्त्राविष्णाहतं महासुरं कालदेवीं यदिभिः सव्यध्यत उग्रसेनं च पितरं यदुर्भोजान्धकाधिपं श्रयं निगृह्यबुविजये सूर्यसेनान्महाबलः ते श्रीमद्भागवते महापुराणे पारमुंसां चैतायां दशमस्कन्धे पूर्वार्धे श्रीकृष्णां व्रतारोपक्रमे प्रथमोऽध्याय